तर्हि अद्य अस्माकं पुत्रमस्ति अष्टाध्यायी समग्रदृष्टिः तत्र फोर् पायिण्ट् टु इति करपत्रमस्ति तत्र उद्घाटनं कृत्वा तत्र बि इति भागः अस्ति उपरि तु तत्र प्रकरणम् इति सर्वं तस्य विषये अस्ति तत् किञ्चित् अतिक्रम्य बि इति मध्यभागे अस्ति अष्टाध्यायः मानचित्रम् इति तत्र संक्षेपेण प्रत्येकस्मिन् अध्याये किं किम् अस्ति इति तत्र दत्तमस्ति तत् किञ्चित् पठित्वा अग्रे गच्छेम नूतनतया केनापि आगतं वा वेङ्कटेश्वरे अत्र यदहं करपत्रद्वयं प्रेषितवती तेषु प्रथमकरपत्रमस्ति तस्मिन् करपत्रे Uh, साधारणतया अस्ति बि इति तत्र शीर्षकमस्ति अष्टाध्यायी मानचित्रम् इति पश्यति वा भगिनी करपत्रस्य नाम अस्ति तत्र अष्टाध्याय्याः समग्रदृष्टिः इति करपत्रस्य नाम तत् मध्यभागे भागः अस्ति अष्टाध्याय्याः मानचित्रम् इति शीर्षक राजभगिनी पश्यति वा आम् आं भगिनि कृपया पठतु अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति प्रत्येकस्मिन् अध्याये चत्वारः पादाः पादेषु सूत्राणि क्रमेण भवन्ति प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या संख्यायाः पादत्रयं प्रथमासङ्ख्या अध्यायस्य द्वितीयसंख्या पादस्य तृतीयासङ्ख्या सूत्रस्य यथा यथा एको यरचि षष्ट शर, अध्याये प्रथमवारे सप्त षट् सप्त शर, षष्टिः इदं सूत्रं षष्टे अध्याये तत्र प्रथमे सूत्रसङ्ख्या भगिनी तत्र सप्तषष्टिः नास्ति षट्सप्ततिः अस्ति षट्सप्तति आम् आं भगिनी क्षम्यताम् अस्तु चिन्ता अग्रे पठामि वा आम् इदानीं किं कुर्मः यतोहि पठितं करपुत्रमस्ति तर्हि गीताप्रतिपादनस्य आवश्यकता नास्ति मुख्य एवं पठन्तः गच्छेम तत्र किमपि मुख्यविषयः अस्ति चेत् वदामः विषये नो चेत् पठितमेव अस्ति करपत्रं पूर्वम् अतः अग्रे गच्छामः भगिनि एकैकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः सर्वं ज्ञात्वा नोक्ताम् किञ्च अधः यद् दत्तं बुद्धं चेत् मनसि अष्टाध्यायाः एकदृष्टिः सिद्धा भविष्यति प्रथमः अध्यायः संज्ञासूत्राणि द्वितीयः अध्यायः एकं समासाधिकार सर्वे समासाः विहिताः अव्यैभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः द्वे विभक्तीनां विधानं क्रमेण द्वितीया चतुर्थी तृतीया पञ्चमी सप्तमी प्रथमा षष्ठी इति विभक्तयः तृतीयः चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायाः इत्युच्यते अत्र धातुभ्यः प्रतिपदिकेभ्यश्च प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति तृतीयः अध्यायाः एकक्षणम् एकक्षणं भगिनी तत्र विभक्तीनां विधानं तत्र क्रमः किञ्चित् भिन्नः अस्ति चेत् तदर्थं किमपि समाधानम् अस्ति वा द्वितीया चतुर्थी तृतीया पञ्चमी इति दत्तं किल न भगिनि तत्तु तस्य विषये इदानीं किमपि नास्ति न ना जानाति अस्तु किमर्थं यदा तस्य विषये यदा पठनं भवति प्रायः तत्समये किञ्चित् अवगमनं किञ्चित् जानन्ति चेत् कृपया वदन्तु तादृशक्रमेण किमर्थम् प्रायः अस्तु षष्टिः किमर्थम् अन्ते दत्तमिति किञ्चित् जानामि शेषे षष्टि इति एकं सूत्रम् अस्ति यदा तत् पूर्वं यानि यानि दीयन्ते हा तत्र विशेषेण किमपि नोक्तं चेत् तत्र षष्टिप्रयोगं कर्तुं शक्यते इति तेषे षष्टिसूत्रं वदति अतः तत् अन्तिमे अस्ति इति अंज द्रस्व्यमस्तर्थ कि अयनम आवश्यकमेंट चिंतयामी अस्प हेमी अग्रे पठत तृतीय चतुर्थ पंचम चध्याया प्रत्यध्याच्य अत्र सर्वे अत धाभ्य प्रातिपे प्रत्यता तृतीय अय धातु्ये ये प्रत्याया प्रत्य विता अनादय्रतयाक्रतया कृ प्रत्यूतालु तदनन्तरं लकारप्रत्ययाः भूतार्थे वर्तमानार्थे भविष्यत् भविष्यता भविष्य च कर्मणि भावे च कृत्प्रत्ययाः लकारप्रत्ययाः स्त्रियां कृत्प्रत्ययाः तदनन्तरं चतुर्थ अध्यायः चतुर्थः अध्यायः प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः स्त्रियां ये प्रत्ययाः अपि च पञ्चमः अध्यायः तद्धितप्रत्ययाः विभक्तिसंज्ञकाः प्रत्ययाः तर्हि तद्धिताधिकार तद्धितप्रत्ययाः हा चतुर्थे केवलं तद्धित अधिकाराः सन्ति अत्र तद्ध प्रत्ययाः सन्ति तत्र विभक्तिसंज्ञकाः प्रत्ययाः अपि च अव्ययसंज्ञकाः प्रत्ययाः इति तदनन्तरं समासान्ताधिकाराः उत्तरपदस्य प्रत्ययाः िः सर्वरात्रह अत्र प्रथमपद पदस्य विभक्तिलोपः भवति अपि च रूपपरिवर्तनमपि अस्ति तेषु विषयः अत्र भवेत् इति चिन्तयामि तदनन्तरं षष्टाध्यायः पठामि वा महोदय अग्रे रश्मी पठति वा आं भगिनि म्यूट् अस्तु षष्टाध्यायः द्विक्तप्रकरणं दा ददा ददाति सम्प्रसारणं तृतीयमस्ति सन्धिः संहितार्थः अत्र स्वसन्धिविधायकसूत्राणि सन्ति ले सन्धिः गुणसन्धिः वृत्तिसन्धिः सवर् शर्वर, सवर्णदीर्घाधिः इत्यादयः चतुर्थपा चतुर्थः पादः अङ्गाध्यः अत्र षष्टाध्यायस्य चतुर्थपादस्य एक प्रथमसूत्र आरभ्य सप्तमाध्यायस्य चतुर्थपादे सप्तनवतिः सूत्रपर्यन्तं अङ्गं ज्ञायते तद् पठनस्य आवश्यकता नास्ति तत्र अङ्गं किम् इति तत्र अग्रेपि द्रष्टुं शक्नुमः तर्हि अत्र किञ्चिदेव यथा महोदयेन पूर्वमपि उक्तं तत्र अङ्गकार्यम् इति षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् इत्येव अत्र विषयः अस्तु भगिनि अग्रे सप्तमाध्यायः अङ्गकार्यम् अङ्गात्परस्य प्रत्ययादेशः इडागमप्रकरणं यथा खादितवान् इत्यस्मिन् खादुधातुः योगः ई इडागमः योगः भवतु सार्वधातुकप्रत्ययपरे अङ्गकार्यं सार्वधातुकार्थधातुकयोः पूगन्धलघुपतस्य च निति-किति-घिषू इति सूत्रद्वयं वृत्तिप्रकरणीतेषु अभ्यासकार्यप्रकरणं कार्य भवति द्वि द्वित्वानन्तरं यथा दा धातुः दा दा दरं दतु ददा इति आगच्छति अष्टमाध्यायः पदस्य इत्यधिकारः पूर्व पूर्वत्रः निसर्गशान्धिः नत्वप्रकरणं फलं फलानि किन्तु पुष्पं पुष्पाणि तर्हि अत्र तत्र पूर्वत्र सिद्धम् इति अष्टाध्यायी द्वितीयवारे प्रथमसूत्रम् अस्ति तर्हि तस्य विषये तु वयं जानीमः एव अग्रे अपि यदा समयः गच्छति तदा पुनः तस्य पठनं कर्तुं शक्नुमः अस्तु तर्हि एतदेव अस्ति अस्मिन् इतोपि विषयाः सन्ति अस्मिन् करपत्रे अन्येषु करपत्रेषु यदा समयं प्राप्नुवन्ति भवन्तः पठितुं शक्नुवन्ति तर्हि केवलम् एवमेव पुनः अष्टाध्याय्याः तत्र किञ्चित् परिचयात्मकं भवतु इति कृत्वा एषः भागः अस्ति इदानीम् अग्रिमकरपत्रं पठेम अग्रे अस्ति 4.3 फोर् पोयिण्ट् त्रि इति तत्र तिङ्ग् सिद्धेः च लकाराणां समग्रदृष्टिः इति एतत् करपत्रं वयं सम्पूर्णं पठितुं प्रयत्नं कुर्मः आरम्भात् तर्हि पुनः तदेव ज्ञातः विषयः अस्ति तर्हि पुनः पठित्वा प्रतिपादनस्य आवश्यकता नास्ति यदि न अवगच्छामः विस्मामः च आवश्यकी किमपि चिन्तनमस्ति चेत् चे वदामः नो चेत् प्रायः अग्रे गन्तुं शक्नुमः अस्तु तर्हि रामप्रिया भगिनी कृपया पठति वा आं भगिनि तिङ्ग् सिद्धेः च समग्रदृष्टिः लट् लकारे द्वादिगणे पादातुः जुहोत्यादिगणे द क्षम्यताम् एकक्षणं बटामि एकक्षणं पुष्पभगिनी कुत्र स्मः इदानीं प्राप्तवती वा इदानीं नूतनकरपत्रमस्ति प्राप्तवती आम् अस्तु रामक्रिय भगिनी एकदि अहं लक्ष्मी अस्मि नमस्ते भगिनि अस्तु भगिनि रामक्रिय भगिनी अनुवर्तयति कृपया जुहोत्यादिगणे दादातुः ददाति स्वाधिगणे आप्दातुः आप्नोति दशधातुगणाः सन्ति गणम् अनुसृत्य विकर्णप्रत्ययस्य भेदेन लट् लकारे रूपभेदः दृश्यते पिबति ददाति आप्नोति इति प्रमाणम् परन्तु लिट् लकारे पास्यति दाधातुः दास्यति आप्धातुः आप्स्यति अच्छा साम्यं दृश्य से य मध्ये गणीय विकर्ण प्रत्यय नटकार लकारधाकृट लाक अयम भेद कथम निष्पन्न अस्ट पाठे पीशीलम पटाव हाँ धाभ्य विहत प्रत्य एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्दधातुकाश्च अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकः चेत् तर्हि कर्क्रार्थे शभादयः विकर्णाः आयान्ति कर्तरी शप् इत्यनेन शभादयः आयान्ति चेत् धातुगणभेदः भवन्ति प्रत्ययः सार्वधातुकः नास्ति चेत् आर्दधातुकः एव आर्ददातुकः चेत् इडागमविचारः करणीयः अयं विभजनं तिङ् तिङ्षु अपि भवति कृत्सु अपि भवति प्रथमतया तिङ्प्रसङ्गे अवलोकयाम तदा कृत्प्रसङ्गे तिङ्प्रत्ययैः लकाराः निष्पन्नाः अतः तिङ्प्रसङ्गः इत्यस्य वदनेन लकाराणां विषयः आयाति दशलकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशील परिशीलनेन बहु प्रकाशते तर्हि तत्र गणाः अनन्तरं तत्र किं भवति लकारः अनन्तरं ल इति अवशिष्यते तत् सर्वं तादृशम् अस्ति अग्रे गच्छेम वा इदानीम् अखिलभगिनी आम् भगिनि मूलतः पूर्णा कथा दशलकाराः सन्ति आरम्भेरक्षाम् अनुसृत्य दशलकाराः गोचराः तदा अष्टाध्याय्याः पद्धत्या लघुत्वार्थं सर्वे लकाराः लकारः इत्येव भवन्ति अत्र अभेदः एव दृश्यते पश्चात् लकारस्य स्थाने अष्टादशतिङ्प्रत्ययाः अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादशतिङ्प्रत्ययाः अतः तदानीमपि अभेदः एव अन्ते तिङ्गां सिद्धित्वेन पुनः दशानां भेदाः आनयान्ति अभेदत्वात् भेदतस्य आगमनेन लकाराः सावधातुकाः आर्दधातुकाः च इत्ययं विभागद्वयम् अत्रैव सृष्टम् विवक्षाम् अनुसृत्य दशलकारः भेदः तदनन्तरं सर्वे लकाराः लकारः इत्येव भवन्ति अभेदः तृतीयं सोपानम् अष्टादशप्रत्ययाः अभेदः चतुर्थं सोपानं लकाराणां सिद्धप्रत्ययाः भेदः अन्तिमसोपानं दशानां लकाराणां तिङ्गन्तरूपाणि तिङन्तपदानि तिंगंतर भेदः अत्र बहुवारं तत्र भेदः भेदः सर्वम् आगच्छति तर्हि तद् पुनः किमर्थमिति किञ्चित् संक्षेपेण वदति वा कृपया इत्युक्ते आरम्भे यदा अस्माकं विवक्षा अस्ति कथनसमये तु आ, आ, लो ट्वा, लो ट्वा, आ, तत्र तु मूले तु भेदः अस्ति एव कः लकारः इति लट् वा लोट् वा लृट् वा इति यत्किमपि भवतु तर्हि तत्र तु भेदः अस्ति एव तदनन्तरं लट् वा भवतु लोट् वा भवतु तत्र इत्संज्ञा इति स्वीकृत्य गच्छति लकारः इत्येव अवशिष्यते तर्हि लकारस्य स्थाने अष्टादश तिङ्त्याः इत्युक्ते परस्मैपदि पदिनः नव अपि च अस्मैदिनः नव इति अष्टादश तिङ्प्रत्ययः के के इति वयं जानीमः तत्र आगच्छन्ति पुनः वृक्षानुगुणम् इत्युक्ते तत्र प्रथमपुरुषः वा मध्यमपुरुषः वा इति तत्सर्वं तर्हि यदा तिङ्प्रत्ययः आगच्छन्ति तत्र तु पुनः भेदः अस्ति यदा सिद्धतिङ्प्रत्ययाः भवन्ति तत्र तु पुनः भेदः भवति इत्युक्ते यदा वयम् अग्रे पठितवन्तः तत्र लक् कृते प्रथमपुरुषे एकवचनस्य सिद्धतिङ्क्प्रत्ययः अपि च लोटि प्रथमपुरुषस्य तिङ् सिद्धतिङ्प्रत्ययः इति तयोः मध्ये भेदः वर्तते तादृशभेदः अत्र दृश्यते यतोहि तत्र आरम्भे विवक्षानुगुणं यः लकारः यस्य लकारस्य उपयोगम् इति चिन्तितवन्तः तदनुगुणं सिद्धतिङ्प्रत्ययाः अपि उपयोगं कुर्मः सिद्धतिङ्प्रत्ययान् उपयोगं कुर्मः तर्हि तत्र पुनः भेदः भवति तर्हि अन्ततो गत्वा यदा तिङन्तपदानि क्रियापदानि निष्पन्नानि भवन्ति तत्र तु भेदः दृश्यते एव इत्युक्ते मूले यः विवक्षा अनुगुणभेदः अस्ति तेन भेदेन अन्ततो गत्वा अपि भेदः आयास्यति परन्तु मध्ये प्रक्रिया अनुगुणं तत्र भेदः कुत्र कुत्रापि भेदः अस्ति अन्यत्र तु भेदः नास्ति यत्र अनुबन्ध लोपानन्तरं यदा ल एव अवशिष्यते तदा भेदः नास्ति अपि च यतोहि ल इति सर्वेषां कृते ल एव अनन्तरं तिङ्प्रत्ययाः यदा सर्वेषां कृते तत्र तिङ् ते एव प्रत्ययाः इति कृत्वा तत्र द्वयोः सोपानयोः अभेदः अन्यत्र भेदः इति अस्तु अत्र प्रश्नः एतावत्पर्यन्तम् महोदय अग्रे पृपया लकार लट प्रत्युट लदय लाण ना सा परु कल ना न ए प्रतिया दशा लाण प्रत्य लट, वर्तमे लट् अतने लिम आमंत्रण अधीष्टस लिंग लोट्श्न संप्रश्न प्राथनस लोट् परोक्षे लिट, अनद्यतने लुट, लुट् शेषे चिङ् निमित्तेवतः अष्टाध्याय्याः समग्रदृष्टिः मनसि अस्ति खलु इमानिपरितनानि ना, सूत्राणि अध्याये, तृतीय ध्यान अतः कूत्रण अम्म एकण अपरीतन सूत्रण सर्वा सर्व सवेश अत एक सूत्र सी एये वावय अनन्तरं um, ततः अग्रे गन्तुं शक्नुमः अस्तु um, अग्रे पुष्पभगिनीं पठितुम् इच्छति वा अस्तु भगिनि श्रूयते वा आम् प्रत्ययः अधिका त्रीणि अष्टाध्याय अध्याये चतुष्टध्याय चतुर पंच्छा, पंच्छा आ, चतुर न चतुर्थ पञ्चम पञ्चम चतुर्थ किं वदति अधिक एकशतं षष्ट्यधिक एकशतं शतं चतुर् चतुरध्याये न चतुर्पादे चतुर्पादे तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु आम, यत्र यत्र कस्यचित् विधानम् भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानम् सञ्जा सञ्जातम् तस्य प्रत्ययसंज्ञा भवति एषु त्रिषु अध्यायेषु विधिसूत्रम् यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः पुष्पगिनी सम्यक् न श्रूयते यद्भवती पठति तत्र कश्चन एतद् चेञ्ज् करोमि हम अहं प्रामिक क्षणम् पञ्चनिमेष अनन्तरम् अन्य कोऽपि पठति तर्हि प्रत्ययः इति सूत्रं केवलं तृतीयचतुर्थपञ्चम अध्यायेषु यत्र यत्र यत्किमपि यत् यत् किमपि विधीयते सः प्रत्ययः अस्ति इति एतत् सूत्रं वदति अस्तु अग्रे वेङ्कटेशमहोदय कृपया पठति वा एकनिमिषम् तत्र यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति इति अस्ति किल तस्य सम्यक् अवगन्तुं न शक्नोति किञ्चित् वदतु तस्मिन् यस, विषये यत् यस्य विधानं सञ्जातं <Han>, इत्युक्ते यद् विधीयते इत्युक्ते यद् यत्किमपि सूत्रमस्ति विधिसूत्रं यदि अस्ति तर्हि तत्र यत्किमपि तेन सूत्रेण विहितम् तद् अस्ति प्रत्ययः प्रत्ययस्य विषये अस्ति प्रत्ययः विधीयते तेन सूत्रेण इति तस्य अर्थः अस्तु वा इत्युक्ते तस्य विषये इत्युक्ते कस् तस्मिन् सूत्रे यद् कार्यं भवतु इति तद् सूत्रं वदति तत् अस्ति प्रत्ययस्य विषये प्रत्ययः एव अस्ति तत्र इति वदति एतत् सूत्रम् अस्तु वा तर्हि इदानीं यद् वयं कोऽपि सूत्रं स्मरतः अस्मिन् विषये उदाहरणार्थम् एकं कर्तरिष्यति नोत् त्रिंशत् सार्वधातुकम् इति Ah. तर्हि कर्तरि षप् इति स्वीकुर्मः त्रिंशत् ता साधातुकमिति सूत्रं स्वीकुर्मः तर्हि तादृशं विधिसूत्रम् अस्ति तद्वदति षप् इति प्रत्ययः अस्ति इति ए एतेन सूत्रेण प्रत्ययः इत्यस्य अधिकारः भवति अतः यद् कार्यं विधीयते तेन सूत्रेण इत्युक्ते शप् विधीयते कर्तरि इति सूत्रेण शप् विधीयते तर्हि शप् इति प्रत्ययः अस्ति इति एतस्य सूत्रस्य प्रत्ययः इति एतस्य सूत्रस्य अधिकारः अस्ति अतः वयं ज्ञातुं शक्नुमः शप् इति प्रत्ययः अस्ति इति अस्तु अवगतवान् अस्तु वेङ्कटेश् महोदय अस्तु परश्च तृतीय अध्याये प्रथमपादे द्वितीयसूत्रम् अधिकारः तृतीय अध्याये प्रथमपादे प्रथमसूत्रात् आरभ्य पञ्चमाध्याये चतुर्थपादे षष्टितमषष्ट्यधिक एकशतसूत्रपर्यन्तम् एषु एव त्रिषु अध्यायेषु यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति किञ्चित् प्रतिपादनं करोतु महोदय तस्य यतो हि महत्त्वपूर्णानि सूत्राणि संज्ञात्रं प्रत्ययः इति तत्र प्रत्ययः इत्यस्य लक्षणं तत्र प्रायः अनेन सूत्रेण ज्ञातुं शक्नुमः तत्र परश्च इति इत्युक्ते तत्र प्रत्ययः कुत्र भवति इति परश्च इति सूत्रं वदति तत् प्रत्ययः यदा यदा प्रकृतेः प्रत्ययः प्रकृतेः अनन्तरम् आयाति इति सूत्रस्य अर्थः तर्हि कर्तरि शक्ति स्वीकृत्य तत्र एतौ द्वौ कथं कार्यं कृतः एते द्वे सूत्रे इति पठति वा तर्हि कर्तरिशक्ति इति सूत्रेण तत्र प्रत्ययः इति अधिकारः अस्ति इत्यस्य सूत्रस्य कृत्वा प्रत्ययः अस्ति वयं जानीमः कार्यं विधीयते mm. तत् प्रत्यय अस्ति इति परश्च इति सूत्रं वदति प्रकृतेः अनन्तरं कुत्र इदानीं प्रत्ययः विधीयते तत्र कर्तरिशक्त्येन किं प्रत्ययस्य आङ्गनं भवति परन्तु तत्र कुत्र भवति तादृशप्रत्ययः यदा आयाति इति तत्र परश्चं वदति पतेः अनन्तरम् एव प्रत्ययः आय आयाति हा इत्युक्ते प्रथमं किं प्रत्ययः तत्र विधीयते इत्युक्ते यदि भूयोगः तत्र लट्लकारस्य विरक्षा अस्ति चेत् भूयोगः टी तदा टी इति कर्तर्थकसार्वधातुकप्रत्ययः अस्ति अतः कर्तरिषप् इत्यस्य कार्यम् इदानीं कर्तरिषप् इत्यस्मिन् सूत्रे प्रत्ययः परश्च अनन्तरम् अपि गच्छति धातोः अधिकारः ते तर्हि तेन सूत्रेण सः प्रत्ययः इति जानीमः अपि किम प्र, कि त आवश्यक प्रकृते अनरम नोचे भू ती अनम शापय शक् तथा न भव प्रकृत अनमेंकृति धातु किल भगनी प्रकृति हाँ हेम भाँ प्रकृति धाथ मैं धाओं आया मध्ये आया प्रत्यय अस्मैंत्र कर्तरीशिंग तुटे प्रकृति नोचे अच्छा प्रकृति हाँ, हाँ तरक् न आयाती अनन्तरम् अनन्तरम् आगच्छति अनन्तरं तस्य अनन्तरं कुत्र इति धातोः इति वेङ्कटेशमहोदय कृपया पठतु अन्यश्यम् आम् अत्र किं किञ्चित् तावत् तस्य अनुवृत्तिसहितसूत्रमस्ति धातोः परश्व ित् प्रत्ययः सार्वधातुकं सो धातु so, दात, सूत्रं वदति धातोः धातोः परः तिङ्क्षित् इति प्रत्ययः आयाति तादृशप्रत्ययः सार्वधातुकम् इति संख्या प्राप्नोति इति सूत्रं वदति एकस्मिन् उदाहरणे तर्हि तत्र तिंशित् सार्वधातुकमिति सूत्रे अपि एतत् अधिकारसूत्रेण एते त्रयः आगच्छन्ति प्रत्ययः परश्च धातोः एकवारम् अनुवृत्तिसहितसूत्रं पुनः पठतु धातोः परश्च ति धातोः पर, परश्चित् प्रत्ययः सर्वाकं तर्हि त्रि एते त्रयः अपि तत्र अधिकाररूपेण आगच्छन्ति अतः कु किं भवति किमस्ति तत्र कुत्र आगच्छति अस्य अनन्तरम् आगच्छति इति वदति अस्तु अपि च अग्रे इतोपि उदाहरणमस्ति तत् तदपि पठेम वेङ्कटेशमहोदय कृपया धातोः तृतीय अध्याये प्रथमपादे एकनवतिसूत्रम् अधिकारः तृतीय अध्याये प्रथमपादे एकनवतिसूत्रात् आरभ्य तृतीयपादे चतुर्थ अध्याये सप्त सप्त सप्तदशाधिक एकशत उत्तरपर्यन्तं तृतीये अध्यायानां तिङ्गन्तानां च विधायकसूत्राणि भवन्ति अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः इति धातुतः विहितः प्रत्ययः सर्वदा तत्र धातोः अनन्तरं विहितः धातोः इति सूत्रं वदति कृत्वा अग्रे पठतु अतः वर्तमाने लट् तृतीय अध्याये द्वितीयपाये त्रयोविंशति अधिकशततमसूत्रमस्ति वर्तमानर्थे धातुतः लट् प्रत्ययः भवति लट् प्रत्यय प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन धातोः परे एव आयाति परश्च इत्यनेन अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः तर्हि तत्र वर्तमाने लट् इति सूत्रं वदति पुनः तत्र वर्तमानार्थे धातुतः लट् इति प्रत्ययः भवति स तत्र प्रत्ययः इति संज्ञा इति न तत्र लट् इति प्रत्ययसंज्ञा प्राप्नोति पुनः परश्च इति सूत्रेण स च लट् प्रत्ययः धातोः परश्च एव भवति इति तत्र प्रकृतेः परम् आयाति इति अनन्तरं धातोः इति पदेन धातोः परः एषः प्रत्ययः आगच्छति इति सूत्रत्रयम् अधिकारसूत्रम् अस्ति तर्हि तद्वदति तर्हि भगिनी श्रुणताम् अत्र धातोः इति सूत्रं सूत्रमस्ति खलु तत्र तु धातोः इति पञ्चमयन्त्रम् अस्ति तर्हि तेन सूचितं खलु तर्हि तत्र पञ्चमीति कृत्वा तस्य अनन्तरमेव आगच्छति इति तर्हि किमर्थं परश्च इत्यस्यपि आवश्यकता हेमहेमि किमपि वदन्ति अस्ति वा न सम्यक् श्रूयते न भगिनी तत्र न न सम्यक् श्रूयते तर्हि तत्र परश्च इति यत् सूत्रमस्ति तस्य अधिकारक्षेत्रं बृहत् अस्ति धातोः सूत्रस्य अधिकारक्षेत्रं न्यूनमस्ति तर्हि तेषु सूत्रेषु यत्र धातोः इत्यस्य अधिकारः अस्ति तत्र धातोः विहितः कार्यं तत्र धातोः अनन्तरम् इति आगच्छति इति धातुविषये अस्ति तद्विहाय अपि तत्र परश्च इति कार्यं करोति इति सूत्रम् अन्यत्रापि इति मम अवगमनमस्ति तत्र परन्तु इतोपि तत् किञ्चित् किमपि अस्ति वा इतोपि कारणम् अहं न जानामि तर्हि भगिनि तत्र प्रश्नः इत्युक्ते तत्र धातोः भितः प्रत्यय अनन्तरं परश्च इति यद् यस्पि अन्यप्रत्ययः आयाति तस्य परम् आ एव भवति इति वा तत्र पुनः वदतु महोदय इदानीं धातोः इतर तस्य समाधानम् इति परश्च इति अपि परश्च इति सूत्रेण तत्र तस्य क्षेत्रं बृहत् अस्ति धातोः इति लघुक्षेत्रमस्ति इति वदति किल तत्र तर्हि धातुतः विहितः प्रत्ययः यदा भवति तदपि धातोः अनन्तरम् एव धातोः सूत्रेण भवति अनन्तर भिन्नप्रत्ययः यदा यः कोपि अस्ति तत्र प्र प्रत्ययसंज्ञा प्रत्य प्राप्य आगच्छति तदा किं भवति तत्र इदानीं तिङ्प्रत्ययः भू भवती उक्तवती किल भू भूधातोः अनन्तरं विखरणप्रत्ययः अनन्तरं तिङ्प्रत्ययः इति तदा तत् तथा तत्र तिङ् प्रत्ययः कुत्र भवति इति निर्णीयते वा तत्र परश्च इति सूत्रेण यदा तिंग प्रथमम् आगच्छति तदा शप् तु नास्ति एव तर्हि यदा तिङ्ग् आगच्छति तिङ्प्रत्ययः तदापि एतेषां सूत्राणां तत्र भवति एव अधिकारः अनन्तरं शप् यदागच्छति तदापि एतस्य भवति तर्हि धातोः इति पुनः किमर्थम् आवश्यकं यदा पराश इति अस्ति तर्हि प्रायः एतेषु सूत्रेषु यत्र धातोः इत्यस्य अधिकारः अस्ति तत्र धातुविषये एव कार्यं प्रचलति इति प्रायः तेन अवगम्यते वा इति किमपि स्यात् न जानामि किञ्चित् चिन्तयामः एतस्य विषये अष्टाध्याय्याः समग्रदृष्टिः तत्र तत्र परश्च धातोः द्वयोपि सुसूत्र सूत्रयोः उदाहरणं उदाहरणं विस्तरेण अस्ति तत्र किञ्चित् उत्तरं प्रायः प्राप्नुमः हा um, um, um, तत्र सी um. इति यः भारः अस्ति तत्र वा अस्तु अस् आस एवं कुर्मः तर्हि किञ्चित् वयम् अनन्तरम् एतस् एतं भागं पठेम अहमपि पठामि अनन्तरं किञ्चित् समाधानं लभ्यते वा इति पश्यामः अस्तु सम्यक् तर्हि इदानीं पुनः अस्माकं व्ययः अत्र एतेषां धातूनाम् अत्र अधिकारः अस्ति अधिकारसूत्राणि क्षम्यताम् एतेषां सूत्राणाम् अधिकारः अधिकारसूत्राणि सन्ति एते, एते, एते अनन्तरम् अग्रे विषयः अस्ति तत्र इत्स्यकवर्णाः अनन्तरं तेषां लोपः तस्य ता, विषये वयं जानीमः पूर्वं पठितवन्तः सि इति भागं न पठामः तत्र केवलं सूत्राणां तत्र विषय अस्ति अग्रे तत्र उच्यते तत्र लट् इति व्यत्ययः अस्ति संक्षेपेण वदामि तत्र वस्तुतः लट् इति अस्ति तत्र हलन्त्यम् इत्यनेन टकारः ता, ता, गच्छति अनन्तरम् अकारः यः अस्ति लकारोत्तरवर्ती अनुनासिक अकारः अस्ति अतःनासिक इत्यनेन तस्यापि इत्संज्ञा अतः ल इत्येव अवश् अवशिष्यते तथैव सर्वेषां लकाराणां लङ् मध्ये अपि लोट् मध्ये अपि तत्रैव तथैव सर्वत्र अन्तिमवर्णः गच्छति हलन्त्यम् इति सूत्रेण स्वरः गच्छति तत्र उपदेश्यजनुनासिकनासिकत्वेन अतः सर्वत्र ल इत्येव अवशिष्यते एतेन तत्र लघुत्वमागच्छति केवलं ल इति यदा वदामः तदा लस्य इति एकेन सूत्रेण एव कार्यम् अग्रे साधयितुं शक्नुमः तत्र डी इत्यस्मिन् भागे अन्ते अस्ति तत्र पश्यन्तु यत्र स्थूलाक्षरैः लट् लङ् इति सर्वं लिखित्वा तत्र अन्ततो गत्वा लिष्यते तत्र अनुबन्धलोपानन्तरं लस्य इति अवशिष्यते तर्हि प्रत्ययादेशः तस्य स्थाने ये ये प्रत्ययाः सन्ति तस्य विषय तस्य स्थाने ल इति आगच्छति अतः लादेशः इति उच्यते तर्हि तं ता, भागं पठति वा वेङ्कटेशमहोदय तद्भागं पठित्वा समापयतु दे आरम्भे लट् लङ् लिट् इत्यादयः विभिन्नलकाराः दृश्यन्ते अतः तत्र भेदः इत्येव स्थितिः किन्तु अनुबन्धानन्तरं ल एव इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः अनेन अतीवलाघवं सिद्ध्यति यतोहि अग्रे एकेन एव सूत्रेण लस्य सर्वेषां लकाराणां स्थाने प्रत्ययादेशः लादेशः भवति तदेव इदानीम् इदानीं अस्तु तर्हि लक्ष्मी भगिनी लाधिकारः इति पठति वा भगिनी तत्र एकः प्रश्नः आशीर्लिङ्ग् इति अस्ति वा सूत्रे सूत्रे कुत्र उपरिवा। वा हा तत्र स्थूलाक्षये दत्तमस्ति किल लङ् लिट् लोट् लिट् लुट् तत्र आशीर्लिङ्ग् इति अस्ति साक्षात् आशीर्लिङ्ग् इति वयं स्वीकुर्मश्चेत् तत्र आशी, तो, तो आशी, आशी ए, एते सर्वे अपि लिट् भवितुं नार्हति किल सत्यं तर्हि तत्र अहं चिन्तयामि आशीर्लिङ्ग् इति अस्माकं ज्ञापनार्थं तत्र लिखितमस्ति वस्तुतः लिङ् एव लाकारः अस्ति लिङ्ग् लिङ्ग् लिङ्ग् विधिलिङ्ग् कृते उपरि तृतीयं विधिलिङ्ग् आशीर्लिङ्ग् नास्ति लिङ्ग् एव अस्ति सत्यं तर्हि लिङ् एव अस्ति अत्रापि आशीर्लिङ्ग् इति केवलं ज्ञापनार्थम् एव इति चिन्तयामि यदा प्रक्रिया भवति तदा लिङ् एव अतः यथा अन्यलकाराणां लट् लङ् येन यया प्रक्रियया ल इति अवशिष्यते तया एव प्रक्रियया आशीर्लिङ्गि अपि तथैव अवशिष्यते लिङ् इत्येव कृत्वा तत्र भगिनी दशलकाराणां कृते लेट् अपि आगच्छति परन्तु लेत् लेत वेदे इति वयं न कुर्मः दशलकाराः रह भवन्ति परन्तु लिङ् मध्ये एव द्वयं विभज्य तत्र विधिलिङ्ग् अपि आशीर्लिङ्ग् भवति किल किं लेट् इत्युक्ते किमपि उक्तवती तद् न श्रुतं लिङ्ग् विषये तत्र विधिलिङ्ग् अपि च आशीर्लिङ्ग् इति द्विधा विभजनम् अस्ति परन्तु लिङ्ग् एव स्वीकुर्मः अत्र लेट् इति वदामः चेत् तर्हि लकारः एव अवशिष्यते दशलकाराः अपि भवति इति सत्यं तर्हि इति वदनस्य न आवश्यकम् इति मन्ये अत्र न श्रूयते शृणोमि किञ्चित् चिन्तयन्ती अस्मि आं तत्र लेट् इति वेदे इति कृत्वा तत्र दशलकारः लिङ्ग् एव लकारः एकः तत्र परन्तु अत्र लोके वयं लेटः उपयोगं आ, लिंग, लिंग वी, लिंग लिंग कृत्वा तत्र लिङ्ग् लिङ्गः वि कृत्वा विधिलिङ्ग् आशीर्लिङ्ग् इति कृत्वा तत्र भिन्नभिन्नलकाराः सन्ति एव Hmm. तर्हि लिङ् यत्र लिखितमस्ति विधिलिङ् अस्ति आशीर्लिङ् यत्र लिखितमस्ति तत्र तु यथा लिखितम् आशीर्लिङ् इत्येव तर्हि तत्र भिन्न लिङ् लद्वयं भिन्नप्रक्रिया अग्रे परन्तु यदा लिङ्तः ल इति भवति तत्र लिङ् एव अस्ति द्वयोः स्थाने अपि तत्र आशीर्लिङ्ग् आशीर्लिङ्गि वा विधिलिङ्गि आशीष् विधिवा इति पदं तत्र अच्छाहृतमस्ति साक्षात् नागच्छति इति मन्ये हा अस्तु अस्तु भगिनि लक्ष्मी भगिनी सम्यक् वा अग्रे गच्छेम शुकवन् महोदय ल अधिकारः एतावता दशानां लकारप्रत्ययानाम् अनुबन्धलोपे ल इत्येव अवशिष्यते अधुना अस्य लहस्थाने अष्टादश तिङ्क् प्रत्ययाः विहिताः भवन्ति एतदर्थं विशिष्टं सूत्रद्वयं लस्य अधिकारसूत्रम् इदं षष्ट्यन्तम् अकारः उच्च उच्चारणार्थं तृतीय तृतीयाध्याये चतुर्थ द्वादशाधिक एकशत पर्यन्तम् अस्य अधिकारः प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत्तत् सूत्रे यः प्रत्ययः विहितः सः लस्य ल इत्यस्य स्थाने विहितः अग्रे पठामि प्रोष्योन किस्ट आर ठार्टोम्त व्रांग अझ्षक्छट स्थ्ट हो हो इतषि ठल्ड आर्ऺ्व्र अग्र्चत्र chopp नेवाई्ट्ट्फ किस्ट्रोम्ते टौम्त इतषिए अट। नन ऐनो ऑम्ते 襯ंद्ट्ट आण आं अग्ध्ड़ य।भी अग्ध्द्ट्ध्ध् हि महि सिङन्तपदानां साधनार्थं मूले मूले अष्टादश तिङ्प्रत्ययाः भवन्ति लस्य इत्यनेन ल इत्यस्य स्थाने एते अष्टादशविहिताः तिथस्झि सिप् थस्थ वस्म ट आतां छास् आं द्वं हि वहि महि इति अष्टादश तिङ्क्प्रत्ययाः तिक् इत्यस्मात् आर आरभ्य महिन्पर्यन्तम् आहत्य तिङ्क् प्रत्ययाः इत्युच्यते इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे अतः लाधिकारः इति उच्यते कार्यमस्ति लस्थाने आदेशः अतः कार्यं लादेशः इत्युच्यते तर्हि अत्र मुख्य किञ्चित् मुख्यपदमस्ति तत्र लस्य इति सूत्रेण तत्र अधिकारः अस्ति तस्य सूत्रस्य लाधिकारः अपि च कार्यं य आदेशकार्यमस्ति इत्युक्ते लस्य इत्यस्य सूत्रेण तत्र ल इत्यस्य स्थाने एते प्रत्ययेषु एकः विहितः भवति इति तत्र आदेशः अस्ति अतः लादेशः इति कार्यं लाधिकारः अनन्तरं लादेशः आरम्भे एते सर्वे अष्टादश तिङ्क् प्रत्ययाः परस्मैपदिनः भवन्ति लः परस्मैपदम् इत्यनेन तदा तङ्गानावात्मनेपदम् तङ्गानावात्मनेपदम् इत्यनेन तङ् इत्यस्मात् आरभ्य महिन्पर्यन्तं प्रत्ययाः आत्मनेपदिनः सम्यक् तर्हि अग्रे तत्र प्रत्ययानां पठनस्य पुनः आवश्यकता नास्ति अत्र एतावत्पर्यन्तं प्रश्नः वा अस्तु अग्रे गच्छामः राजीभहिनी अग्रे प्रत्ययानां नामानि सन्ति तद् अतिक्रम्य लः परस्मैपदम् इति सूत्रम् अस्ति पठति वा अहम् अत्र पठामि श्रूयते वा महोदय श्रूयते किमुक्तवती म्यूट् मध्ये आसम् अहं पठतु लः परस्मै पदम् पदं लस्य स्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मे पदे संज्ञकाः तङ्गानावात्मने पदं लस्य स्थाने ये तङ् आनः शानच् कानच् च प्रत्ययाः आयान्ति ते सर्वे आत्मनेपदी संज्ञकाः तङ् आनश्च तयोः इतरेतद्वन्द्वः तङानौ तङ्गानौ प्रथमान्तम् आत्मनेपदं प्रथमान्तं द्विपदमिदं सूत्रं लः परस्मेपदं इत्यस्मात् लः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लः तङ्गानौ आत्मनेपदम् hmm. अग्रे पठामि वा तर्हि एतस्य किञ्चित् एतस्य सूत्रस्य विषये सूत्रद्वयस्य विषये किञ्चित् सूत्रे लसि स्थाने प्रत्ययाः आयान्ति ते सर्वे परस्मै प्रति संज्ञकाः इत्युक्ते सर्वे प्रत्ययानां परस्मे पा, पा, प्रति सञ्ज्ञकाः सन्ति Uh, आत्मनेपदे uh, ता आरभ्य इ पर्यन्तं आत्मेपद प्रत्ययाः ये, ये प्रत्याः शानच् कानच् अपि आयान्ति ते सर्वे आत्मनेपदी लः परस्मेपदमिति सूत्रं किं वदति पुनः वदतु भगिनि लः परस्मपदसूत्रं टि आरभ्य सा पर्यन्तं परस्नेपदि तिङ्क् प्रत्ययाः सन्ति किल ते, ते सर्वे परस्मैपदिसंज्ञकाः इति इत्युक्ते कति कति प्रत्ययाः परस्मैपदिसंज्ञकाः नवप्रत्ययाः हा तथा नास्ति लः परस्मैपदम् इति सूत्रेण ये ल, ल इत्यस्य स्थाने लस्य यः कोऽपि प्रत्ययः भवतु ति आरभ्य महिपर्यन्तं ति प्रारभ्य महिपर्यन्तं तेषु यः प्रत्ययः भवतु अष्टादशप्रत्ययेषु यः कोऽपि प्रत्ययः को सर्वे अष्टादशप्रत्ययाः परस्मैपदिनः परस्मैपदिसंज्ञकाः इति लः परस्मैपदमिति सूत्रं वदति तर्हि आरम्भे सर्वेषां परस्मैपदिसंज्ञा अस्ति नवनवतितमे सूत्रे परन्तु तत्र सङानावात्मनेपदम् इति तस्य अनन्तरसूत्रम् एव तत्र वदति अस्तु तर्हि त आरभ्य महिपर्यन्तं तङ् mm. इत्यस्मिन् mm. प्रत्याहारे ये ये प्रत्ययाः सन्ति नव ते आत्मनेपदिसंज्ञकाः केवलं ते एव आनः इति इत्युक्ते शानच् कानच् इत्यपि आत्मनेपदिसंज्ञकाः तर्हि लः परस्मैपदम् पर इति सूत्रेण प्रथमम् अष्टादश अपि प्रत्ययाः परस्मैपदिसंज्ञकाः एवं वा हा इत्येव तद् तद् अस्ति तदेव उपरि अपि अस्ति आरम्भे सर्वे अष्टादश तिङ् प्रत्ययः तदेव पठितमस्ति इदानीम् अस्तु अनन्तरं तत्र अस्माकं प्रश्नः भवेत् तत्र परस्मैपदमपि अस्ति आत्मनेपदम् अपि अस्ति वा संज्ञा इति तस्य विषये अग्रे अस्ति भवती पठतु भगिनी द्वयोः हो मध्ये अग्रिमे पठामि वा आं भगिनि पठतु प्रश्नः अस्ति प्रश्न वा कस्यचित् पठतु भगिनि द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् आखडारादेका संज्ञा आखडारादेकासंज्ञा इत्यनेन कराराः कर्मधारये इति सूत्र सूत्रावधिं यावद् एकस्य एकैव संज्ञा भवति न परस्मै पदं टानावात्मने पदं चेति सूत्रद्वयं ये एतत् अभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मेपदसंज्ञा अथवा आत्मपदसंज्ञा सम्भवति द्वयमपि युगपद् न भवति द्वयोः संज्ञोः मध्ये एका एव स्यात् इति निधारयितुं ओके आत्म आत्मपदसंज्ञः मध्ये एकः एव अस्ति अस्ति इति निर्धारयितुं एकः सूत्रम् अस्ति त तस्य नाम आकडारादेक आकडारादेखा संज्ञा इति इत्युक्ते आक आकडा डारादेकसंज्ञा इत्युक्ते कडारः कर्मधारये इति सूत्र सूत्र अवधिम् एव एते किञ्चित् वदामि अत्र आ कडारादेका संज्ञा इति प्रथम प्रथमाभ्यासे प्रथमा चतुर्थे पादे प्रथमसूत्रम् अस्ति तत् सूत्रं वस् वदति इतः आरभ्य कडाराः इति यत्र अस्ति तत् अस्ति कडाराः कर्मधार इति इत्यस्मिन् सूत्रे तावत्पर्यन्तम् या कापि तत्र यानि कानि संज्ञासूत्राणि भवन्ति तैः या कापि संज्ञा एक समये एका एव संज्ञा भवितुम् अर्हति इत्युक्ते इदानीं लः परस्मैपदम् इत्यनेन तत्र अष्टादशानामपि नाम परस्मैपदी इति अभवत् परन्तु यदा शततमं सूत्रं तत् आगच्छति अपि च वदति तङानाम् आत्मनेपदमिति कृत्वा तङ्प्रत्याहारे ये नवप्रत्ययाः सन्ति तेषाम् आत्मनेपदीसंज्ञा तदा आक्रारका संज्ञा इति सूत्रेण परस्मैपदी संज्ञा यद् आसीत् पूर्वम् ए एतेषां नवानां सा संज्ञा गच्छति परस्मैपदम् इति अपगच्छति आत्मनेपदी इत्येव संज्ञा तिष्ठति इति एतस्य तात्पर्यम् इत्युक्ते आकडारादेक संज्ञायाः एवं वा अद्य किमपि बात बाधा न श्रूयते अर्धमेव श्रुतं भगिनीज्ञा इत्यनेन किम् इति पुनः पृच्छतु आकडारदेकसंज्ञा इत्यनेन भवती उक्तवती एकस्मिन् समये एकेव संज्ञा एव भवति इति इत्युक्ते परस्मेपदी संज्ञा आगच्छति तर्हि न आयाति वा परस्मैपदीसंज्ञा अस्ति चेत् आत्मनेपदिसंज्ञा न आगच्छति आत्मनेपदिसंज्ञा अस्ति चेत् पदम् इति संज्ञा न भवति म्यूचुवलि एक्स्क्लूसिव् भगिनी yes. हा huh? भगिनि क्षम्यताम् अत्र एतदपि चिन्तनीयं खलु इत्युक्ते तडाना तडानावात्मनेपदम् इति संज्ञा इति सूत्रं परसूत्रम् अस्ति लः परस्मैपदम् इत्यस्य इति कृत्वा इति इत, प्रत्याहारे ये प्रत्याः सन्ति ते तु प्रथमं तस्य आत्मनेपदम् इति संज्ञा भवति खलु तदनन्तरं यदा लः परस्मैपदम् इति सूत्रस्य प्रसक्तिः एव प्रायः न स्यात् इत्यपि वक्तुं शक्नुमः वा पि अस्ति वा तत्र इदानीं तत्र सूत्रद्वयमस्ति लः परस्मैपदम् इत्यनेन परस्मैपदिसंज्ञा संज्ञा तयानाम् आत्मनेपदमित्यनेन नवानाम् अन्तिमनवानां प्रत्ययानाम् आत्मनिपदिसंज्ञा तर्हि तत्र यदि तथा न उक् तर्हि तत्र संज्ञाद्वयमपि कुत्रापि स्थातुमर्हति इत्युक्ते तत्र तङ्गानावात्मपदम् इति न वदति यद् परस्मैपदिसंज्ञा गच्छतु इति सत्यं सत्यं क्षमता मम मम तत्र विषयः किञ्चित् भिन्नः इत्युक्ते आपणात् एका सन्ना इत्यस्य आवश्यकता नास्ति इति आवश्यकमेव परन्तु क्रमः किञ्चित् भिन्नः स्यात् इति एव मम चिन्तनमासीत् इत्युक्ते प्रथमं प्रश्नेपदं तदनन्तरम् आत्मनेपदम् एकम् एकः एक एवं मूल्ये एव आत्मने प्रथमं भवति तो पारागा। तो पारागा। एक एकक्षणं भगिनी एकक्षणम् अन्यैः श्रूयते वा सम्यक् अखिलभगिनी यद्वदन्ती अस्ति अद्य कोऽपि क्लेशः अस्ति किल अस्माकं क्लेशः अस्ति आम् उक्त्वा आगच्छति आं राजीभगिनी भवत्याः अपि तथैव आसीत् अनन्तरं पुष्पभगिन्यः अपि तथैव आसीत् इदानीं अखिलभगिनी भवत्याः अपि सम्यक् न श्रूयते तर्हि एकक्षणं भवती वदति तत्र किञ्चित् संक्षेपेण पुनः वदतु कृपया हा इत्युक्ते तत्र न न न श्रूयते भगिनि पुनः आगच्छामः भगिनि बहिः गत्वा तथा कुर्मः वा किं वदन्ति सर्वे नोचेत चेत् न श्रूयते एव अस्तु तत् कुर्मः तर्हि सर्वे सर्वे तत्र डिस्कनेक्ट् कृत्वा पुनः आगच्छामः <laughs> इति मम चिन्तनमासीत् भगिनि uh, अस्तु मम uh, अवगमनं किम् इत्युक्ते uh, संज्ञासूत्राणां मध्ये अपवादसूत्रम् इति न भवितुम् अर्हति इत्येवं मध्ये एव अपवादसूत्रं भवितुम् अर्हति लः परस्मैपदम् अष्टादश अष्टादश था, तिङ्क् था प्रत्ययानां संज्ञा अस्ति संज्ञा निर्मा तन, निर्माति वा निर्माणयति वा तन् तनानावात् निर्माति तनानावात्मनेपदं केवलं नव प्रत्ययानां संज्ञा निर्माति किन्तु यदा तनानावात्मनेपदं आत्मनेपदम् इति संज्ञा ददति तथापि अपवाद रूपेण संज्ञा न ददाति इति अतः आकडराते ज्ञा संज्ञा इति सूत्रस्य आवश्यकता अपवादम् इति अहं न चिन्तितवती परन्तु विप्रतिषेध यत्र सूत्रद्वयस्य कार्यं भवति अत्र यः सूत्रं अनन्तरम् आगच्छति परसूत्रमस्ति तस्य एव कार्यम् इति अस्ति तेन सूत्रेण तर्हि प्रथमम् आत्मनेपदसंज्ञा भवति भवति वा इति परन्तु तत्रापि तादृशचिन्तनं इति संज्ञासूत्राणां मध्ये न भवितुमर्हति इत्येव केवलं विधिसूत्रेषु भवति इति हा यतोहि इव इत् प्रकरणसंज्ञामपि वयं पश्यामः चेत् तत तस्य कार्यमपि न भवति यत्र यत्र संज्ञासूत्रम् अस्ति तत्र तर... विप्रतिशे, विप्रतिशे तर्हि तत्र मम चिन्तनमस्ति लहपरस्मैपदं केवलं लाघवार्थम् उक्तम् अनन्तरं विशेषतेया तङ्गानाम् आत्मनेपदम् इति तेषु अष्टादशेषु नवप्रत्ययाः आत्मनेपदिसंज्ञकाः भवन्ति इति तथा भवितुमर्हति वा तत्र लहपरस्मैपदं तत्र यतः लहपरस्मैपदम् इति यद्यद् अस्ति अष्टादशेषु अष्टादशप्रत्ययाः अपि परस्नेपदिसंज्ञकाः इति परन्तु लौकिके तत्र तङ्गानाम् आत्मनेपदारभ्य महीपर्यन्तम् आत्मनेपदी धातूनां कृते एव मूलति प्रत्ययः भवितुम् अर्हति किल अतः तत्र प्रायः भवितुम् अर्हति वा तर्हि यथा शुकवन् महोदय उक्तवान् वेङ्कटेशमहोदय भवान् अपि यथा उक्तवान् तथैव अस्ति अपि च एतद् संज्ञासूत्राणां विषये एतत् सर्वं मम कृते नूतनम् अस्ति परन्तु लाघवार्थं यद् भवान् उक्तवान् तदेव अस्ति तर्हि एवं कुर्मः एतद् वयं पृथक् स्थापयित्वा अग्रे गच्छेम वा यतोहि सर्वेषां यत् चिन्तनं यावदस्ति तावद् कृतमस्ति अग्रे तु निश्चयेन वयं किमपि न जानीमः तर्हि एतस्य अनन्तरं पृष्ट्वा भवतु वा अस्तु तर्हि अग्रे तत्र लघुत्वविषये तदेव अस्ति किमर्थं तथा सिलः परस्मैपदं तङ्गानामात्मनेपदम् इति कृत्वा कथं साध्यते तेन इत्येव अस्ति नोचेत चेत् यथा महोदयेन पूर्वमुक्तम् यथा तिप्ारभ्य ति मस्पर्यन्तं परस्मैपदिनः अनन्तरं तङ्गारभ्य महिङ्ग्पर्यन्तम् तत्र लाघवम नास्ति एतेन मार्गेण लेखने तत्र लाघवमस्ति इत्येव विषयः तर्हि तद् अतिक्रम्य वयम् अधः गच्छामः तत्र पुरुषवचनवीथिः इति तत्र केचन सूत्राणि सन्ति कानिचन कस्य क्रमः अस्ति इदानीं पठितुं राजभगिनी पठितवती इदानीम् अग्रे हेमभगिन्याः हा क्रमः वा पठामि वा पुरुषवचनविधिः विवक्षायां प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनं द्विवचनं बहुवचनं च प्रत्ययाः विहिताः सूत्राणि च इमानि तिङ्ग्स् त्रीणि त्रीणि प्रथममध्यम उत्तमाः प्रथममध्यमोत्तमाः तान्येकवचन द्विवचन बहुवचनान्य युष्माद्गणके दु, मुद्रणे तथा दृश्यते परन्तु युष्मद्युपपदे इति अस्ति युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः अस्मद्युत्तमः शेषे प्रथमः मज्ये मज्ये हा तर्हि केवलम् एतेषां सूत्राणां विषये वयम् अधिकं न जानीमः इत्युक्ते मध्ये मध्ये प्रतिपदम् इति सर्वं किं परन्तु सूत्राणां तत्र आशयः कः इति जानीमः अस्तु तर्हि अग्रे गच्छे मम अग्रे पठतु भगिनि यथा यदि वक्तुः इच्छा अस्ति भूधातुः प्रथमपुरुषस्य एकवचने तर्हि तिप्प्रत्ययः विहितः भूयोगः यदि वक्तुः इच्छा अस्ति वृत् आत्मनेपदी धातुः वर्तते लटी उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः वृत्योगह योगः वहि यः कोऽपि लकारः भवतु नाम प्रत्ययाः एते एव अष्टादशा अतः यद्यपि वक्तुं वक्तुः इच्छाम् अनुसृत्य दशाणाम् लकाराणाम् भेदाः सत् सन्त्येव आरम्भे लट् लोट् लङ् इत्यादिकम् परन्तु इदानीम् अभेद दृश्यते तरही लट्वा, तरी लट् विट्वा वक्त यहाँ मूल प्रत्यय तो सामन भूयोग लट् तरी लट्ल भूयोगक प्रथम पुषे भूयोग लानीम भूयोग भूय लिट होद भूयोग सम्यक् तर्हि एतानि सूत्राणि एव वा, एकवारं पुनः पठामः इति अस्तु अग्रे पठेम रश्मी भगिनी पठति वा आं भगिनि सिङ् प्रत्यायानां सिद्धिः लाधिकारे अपि लाधिकारे अपि च प्रत्ययादेशे तिङ्प्रत्ययाः सिद्धाः भवन्ति एभिः सूत्रैः मूलाः तिङ्प्रत्ययः ये दशानां लकाराणां कृते सम्मानाः विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ्कृत्याः भवन्ति यथा तिप् लटि ति लोटि तु अथवा तात् लङित् इत्यादिकं भवति अत्र अतः अत्र पुनः भेदः आयाति सार्वधातुकप्रत्याः आर्धधातुकप्रत्ययाः च आरम्भे एते सर्वे तिङ्प्रत्ययाः तिंचित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः इयं पाणिनेः शैली प्रथमं सर्वे सामानाः इति वदति तदा अन्यसूत्रेण अपवादः उक्तः येन भिद्यन्ते प्रथमतया सामान्यं दीयते तदा विशेषः परस्मैपदम् आत्मनेपदम् अपि तथा सावधातुकम् अर्थधातुकम् अपि तथा अन्यत् उदाहरणं कर्तरी षप् सर्वेभ्यः धातुभ्यः शप् तदा अपवादरुप् अप अपवादत्वेन गणमनुसृत्य विभिन्नाः विकरणप्रत्ययाः वीताः दिवादिभ्यः शन् स्वादिभ्यः श्नु इत्यादयः एवं चेत् कर्त्रर्थे कर्तरी षप् कृते प्रसक्तिः भविष्यति कर्तरि श कर्त्रर्थे साधातुकप्रत्यये परे अस्ति चेत् तर्हि धातुतः शप्रत्ययः भवति अत्र कर्त्रर्थे कर्तरिप्रयोगः इति अवगम्यताम् भावे कर्मणि च शप्रत्ययः न विहितः अनिवृत्तिसहितसूत्रं कर्तरि श कर्तरिसार्वधातुके धातोः परिश्च षप्रत्ययः एतद् एतत् सूत्रस्य विषये पूर्वमपि पठ चर्चा आसीत् कर्तृ कर्तरिषप् यदा तिङ् इति प्रत्ययः विधीयते तदा कर्तार्थकसार्वधातुकप्रत्ययः अस्ति तदा एतत् सूत्रम् आगच्छा करोति इति कुत्र कार्यं करोति कुत्र न कार्यं करोति इति विषयः ज्ञातः विषयः त सः एव अग्रे अस्ति आ, अस्तु भगिनी भागं पठित्वा समापयतु कृपया भगिनी एकः सन्देहः अत्र कर्तृत्वे कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् इति लिखितमस्ति किल इत्युक्ते परे नास्ति अपि ना वा न यदि कर्त्रर्थकसार्वधातुकप्रत्ययः परः अस्ति चेद् एव एतस्य सूत्रस्य कार्यं भवति यदि कर्त्रर्थकप्रत्ययः नास्ति वा सार्वधातुकप्रत्ययः नास्ति तर्हि कर्तरिषप् इति सूत्रस्य प्रसक्तिः न भवति अतः एव तत्र अग्रे लिखितम् अस्ति किल कर्तर्थे इत्युक्ते कर्तरिप्रयोगे एव यदि भावे वा कर्मणि प्रयोगे तत्र तादृशप्रत्ययः विहितः अस्ति चेत् कर्तरि शप् इति सूत्रस्य कार्यं न भवति यतोहि कर्त्रर्थे नास्ति सः प्रत्ययः अस्तु अस्तु भगिनि अदिप्रवृत्तिभ्यः शपः तत्र शपः लोपः जुहोत्यादिभ्यः श्लुः शपः लोपः दिवा दिवादिभ्यः स्वादिभ्यः श्नुः तुदादिभ्यः शः रुदाथादिभ्यः श्न तनादिकृभ्यः कुः त्रयादिभ्यः श्ना इति सूत्राणि hmm. अत्र अस्ति महत्त्वपूर्णे बेन्दु सर्वे सिद्धाः तिङ्प्रत्याः सार्वधातकाः भवन्ति चेत् तर्हि कर्तर्थे सार्व, कर्त सार्व... सर्वेषु लकारेषु कर्तरिषब् इत्यस्य प्रसक्तिः एवञ्चेत् गणः भेदः भविष्यति गणभेदः भविष्यति सर्वेषु लकारेषु परन्तु तथा नास्ति चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते लटि लोटि लङ्ि विथिलिङि च षट्सु लकारेषु गणीयभेदो नास्ति लिटि लुटि लृङि लुटि लुङि लुणी, आशीर्लुङि च अतः कथञ्चित् एषां लकाराणां सिद्धप्रत्याः सार्वधातुकाः न स्युः पाणिनिः येषां लकाराणां सिद्धप्रत्यानाम् आर्थधातुकत्वं साधयति मार्गद्वयेन तर्हि कथं कुत्र सार्वधातुक कुत्र एतस्य सूत्रस्य कार्यं भवति न अग्रे गच्छेम वा प्रश्नः वा अत्र वा कस्यचित् किमपि चिन्तनम् अस्तु आम् भगिनि सार्वधातुकलकाराः आद्रधातुकलकाराः च अत्र कश्चन सिद्धान्तः अवगन्तव्यः धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभाव अनुगुणं कार्यं भविष्यति सः प्रत्ययः सार्वधातुकः चेत् तर्हि कर्त्रार्थे कर्तरिप्रयोगे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विहितः भवति धातुतिङ्प्रत्ययोः मध्ये सः प्रत्ययः आर्दधातुकः चेत् तर्हि कर्करीशप् इत्यस्य प्रसक्तिः नास्ति एव अपि तु इडागमविचा इडागमो विचारः विहितः अतः अस्माकं चिन्तनम् इदानीम् इदम् धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति तस्य स्वभावः कः दशसु लकारेषु चतुर्णां लकाराणां कृते दातुना साक्षात् सार्वधातुकः तिङ् प्रत्ययः दृश्यते ते च चत्वारः के लट् लोट् लङ् विदिलिन् पुनः स्मर्यताम् यत् तिंशत् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यम् नाम डिफाल्ट् अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां ना सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति यथा लट् लकारः आप् योगः लट् आपयोगः ल आप् योगः तिप् कर्तरी शप् तदा तत् प्रबाद्य स्वादिभ्यः श्नुः आप्योगः श्नुयोगहति अनुबन्धलोपानन्तरम् आप्योगः ननु योगः आप्नु इति अङ्गं भवति आप्नो योगहति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति इकः गुणः आप्नो योगहति वर्णमेलने आप्नोति परन्तु षण्णाम् लकाराणाम् आर्धधातुकत्वं वर्तते इत्युक्तौ कर्त्रार् कर्त्रार्थे अपि षब् विकरणप्रत्ययः न एव विहितः एतत् कथं सम्भवति कथम् एतादृशी स्थितिः निष्पद्यते पाणिनिः येषां षण्णां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन तर्हि तत्र कथम् अग्रे तत्र सार्वधातुकाः कथम् एते एव किमर्थम् अग्रे ये अन्ये सन्ति ते कथम् आर्धधातुकाः इति अग्रे लिखितमस्ति अस्तु अग्रे शुकवन महोदय महोदय एकनिमिषं महोदय एकः प्रश्नः अत्र श्रूयते वा आं भगिनि अत्र वयं कर्तरीषप् इति सूत्रं पठितवन्तः पूर्वमपि तर्हि क कर्तरीशप् इति प्रत्ययः मध्ये आयाति किल तस्य मध्ये आगमनार्थं किमर्थं मध्ये आगच्छति इति हा तद् मध्ये मध्ये इति अस् दृश्यते परन्तु तत् धातोः इत्यनेन धातोः अनन्तरम् आगच्छति इति oh. अतः तत्र पूर्वं किं भवति तत्र भू यदि भू इत्यस्य उदाहरणं स्वीकुर्मः भू ति इति hmm. hmm. कर्त्रर्थकसार्वधातुकप्रत्ययः अस्ति इति कृत्वा अपि च सः प्रत्ययः धातो धातुना साक्षात् दृश्यते इति कृत्वा hmm. कर्तरि शप् इति सूत्रेण शप् विधीयते इदानीं धा कर्तरि सार्वधातृके इति तत्र सप्तमी धातोः परः च शप् इति कृत्वा धातोः अनन्तरम् आगच्छति अनन्तरमित्युक्ते तिप्रत्ययस्य अनन्तरम् आगच्छति चेदपि धातोः अनन्तरमेव परन्तु साक्षात् अनन्तरम् आयाति ना? तत्र धातोः इति पदेन इति चिन्तयामि किल धातोः इति पदमस्ति इति कृत्वा पञ्चम्यन्तमिति कृत्वा तत्र धातोः एव अनन्तरम् आगच्छति धन्यवादः अस्तु अस्तु शुकवन् महोदय कृपया पठतु द्वयोः लकारयोः कृते पाणिनिः तयोःधातुकत्वं साक्षात् विदधाति साक्षात् त्रिंशितुं सूत्राणां सूत्रसङ्ख्यां पश्यन्तु क्रमेण सर्वाणि अतः अनुवृत्तिः सरला अनुवृत्ती किंगि साधुक्रतया प्रत प्रत्युका शेष वर्ती ये ये ये प्रतया धातु्य विताे अर्धधा तदा लिट् चाणिनी वह लिट किंग्रतया यद्यपिंग परंतु तेऽपि आर्धधातुकाः आर्धधातुकाः लिङ् आशीषि इत्यनेन आशीर्लिङ् अष्टादश तिङ् प्रत्ययाः अपि तथैव साक्षात् अपवादत्वेन आर्धधातुकाः प्रश्नः वा अत्र प्रश्नः नास्ति किन्तु अहं पूर्वम् उक्तवान् किल तिंशित् सार्वधातुकं न न लः लः परस्मैपदं तङ्गानाम् आत्मने पदम् इति तत्र अपवाद अपवादः न भवितुमर्हति इति अहम् उक्तवान् किन्तु एते सूत्रे अपि संज्ञासू सूत्राणि एव किन्तु अपवादत्वेन अर्धधातुकाः इति महोदयेन लिखितमत्र तादृशमेव उपरि अपि लिखितमस्ति सा इयं पाणिनीः पाणिनेः शैली इति प्रथमं सामान्यं सूचयति अनन्तरम् अपवादत्वम् इति उच्यति इति कृत्वा संज्ञासूत्राणां मध्ये अपि अपवा अपवाद अपवादः अपवाद अपवाद अपवाद भवितुमर्हति इत्येव अवगम्यते किल दृश्यते अपि च तत्र ता तात्रा, तत्रैव इयं पाणिनेः शैली यत्र लिखितमस्ति ता तत्रैव परस्मेपदम् आत्मनेपदमपि तथा सार्वधातुकम् आर्धधातुकमपि तथा ता इति तादृशं लिखितमस्ति ता महोदय तर्हि किञ्चित् चिन्तनीयं हा किञ्चित् चिन्तयामः अन्यान् अपि पृच्छामः अस्माकं सम्यक् वा अत्र लिटः आशीर्लिङ्गः च अष्टादशानां तिङ्प्रत्ययानां स्वभावं साक्षा पिवर्त प्रथमतया किचि साधाक अनयोर दि प्रत्यय साधाक परंतु लिच्य लिंग आशीषि इभ्यां सूत्राभ्याधाक अतः अडागमो विचार नय आगमन कर्त अन गणभेदो लिट लकारभेदो तह लिट्ण साक्षा लिट्वुक स्वीक अर्धधाक अतः लिट यदा अबंधलोपाल अनम सूत्रे तर स्थने के प्रत्य आगे ते अपि यद्यपि आरम्भे तत्र तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः तथापि लिट् च इति अपवादसूत्रेण लि, तत्र लिट् इति विषये लि लिट् इत्यस्य कार्ये तेषाम् आर्धधातुकत्वम् भवति अतः इदानीं यद्यपि कर्त्रर्थे सः प्रत्ययः अस्ति तथापि सार्वधातुकप्रत्ययः नास्ति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा कर्तरिषप् इत्यस्य कार्यं न भवति लिट् मध्ये mm. ah. इत्येव तथैव आशीर्लिङ्ग् मध्ये अपि इति एतयोः द्वयोः लकाराणां समीचीनं किल एतद् ah. तर्हि अग्रे अग्रे पठतु महोदय चतर्ण लाण कृते धा नोमध्ये अन्त विवर्ध धाक सी लुटु लुटो लुटि लृि चा स्य लुटि पेरे धासीवृत्तिसहित सूत्र लु लुटो, लुटो हो, धाश्चर सी प्रत्यय लुट कृते, लृ अन स आगछति एक लत मध्ये आगछती आगछति छि लुंगि लुंगी धा प्रतुकार मध्ये छि आगे धेय सालीय प्रत्यय ना शिथ अतः षिर्वधाक न साधा अभी तो तर्हि अत्र यथा लिरिट् लकारः अस्ति अग्रे तस् तद् न पठामः यतोहि लिरिट् इति लिखितमस्ति परन्तु अग्रे लट् इत्यस्य एव तत्र उदाहरणमस्ति तर्हि किमस्ति किञ्चित् संक्षेपेण वदामि तत्र लृ यदा आपयोगः लृट् इति अस्ति तदा आपयोगः ति इति यदि लृट् स्थाने ति इति आगच्छति प्रत्ययः तत्र कर्तरिषब् इत्यनेन आगन्तव्यम् हा यतो हि कर्तृथसार्वधातुकप्रत्ययः अस्ति इति कृत्वा परन्तु प्रथमं तत्र स्यतासि नृतोः इति सूत्रस्य कार्यं भवति यतो हि तत्र अपवादत्वेन तस्य कार्यस्य तस्य सूत्रस्य कार्यं प्रथमं भवति यदा एकवारं शतासि नृलतोः इति सूत्रेण तत्र आपयोगः श्ययोगः ति इति भवति श्यति इति भवति तदा इदानीं धातोः पुरतः स्य इति अर्धधातुकप्रत्ययः तर अस्ति इति कृत्वा सार्वधातुकप्रत्ययः नास्ति अतः कर्तरि इत्यस्य पुनः न भवति इत्येव विषयः भगिनी क्षम्यताम् स्यतासि दुर्तोः इत्यनेन तत्र स्य इति तस्य निमित्तं तु तर्हि यदा तिङ् इति लकारस्य स्थाने भवति तदनन्तरमेव कर्तरीषप् इत्यस्य प्रसक्तिः परन्तु तस्य पूर्वमेव स्य इति आगच्छति इति कृत्वा अत्र तु कर्तरीषप् इत्यस्य प्रसक्तिः एव नास्ति खलु सत्यं सत्यं तद् अग्रिमे कार्यं तत्र तथैव पठितमस्ति आम् धन्यवादः भगिनि तर्हि तत्र आम् ति इत्यस्य आगमनात् पूर्वमेव यदा लृ ल्र, लृट् इत्येव स्थितिः अस्ति आपयोगः लृट् इति तस्मिन् समये एव स्या इति प्रत्ययः तत्र आगच्छति तदनन्तरम् तत्र लृ दृट् स्थाने ति इति आगच्छति परन्तु इदानीम् यद्यपि ति इति कर्तरसकसार्वधातुकप्रत्ययः अस्ति तथापि धातोः साक्षात् पुरतः स्य इति इति कृत्वा कर्तरिष प्रत्यस्य प्रसक्तिः सम्यक् किल एतत् भगिनी सत्यं हा धन्यवादः तर्हि एतस्य चिन्तनमासीत् कृतमासीत् अनन्तरं यद् पठितम् अनन्तरं तद् गतं मम मनसः धन्यवादः चिन्ता नास्ति अस्तु अत्र एतावत्पर्यन्तं सम्यक् वा अस्तु तर्हि अग्रे इदानीं किञ्चित् पठित्वा समापयामः अखिलभगिनी भवती एव पठित्वा समापयतु तत्र यथा लृट् लकारः तत् आवश्यकता नास्ति एवं कृत्वा लृट् ततः हा।, हा एवं कृत्वा लृट् लृङ् लुट् लुङ् चैषाम् लकाराणां तिङ्प्रत्ययाः यद्यपि सार्वधातुकाः किन्तु धातुतिङ्प्रत्ययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम् अर्धधातुकः यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात् पूर्वं परं च भवति अपि च यतः एते सार्वधातुकतिङ्प्रत्ययाः अधुना धातुना साक्षात् नैव दृश्यन्ते अतः सार्वधातुकप्रत्ययनिमित्तिकम् अङ्गकार्यं नार्हं नाम कर्तरीष इत्यनेन शप्रत्ययः न आनीयते तस्य स्थाने आर्दधातुकप्रत्ययनिमित्तिकम् अङ्गकार्यं विहितं नाम ईडागमः विचारः अग्रे पठामि वा कार्यं साक्षात् साक्षात पूर्वं परं च भवति इति किम् तस्मिन् नितिनिर्दिष्टे पूर्वस्य सप्तमी विभक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात् तस्मात् इति उत्तरस्य पंचमी विभक्तिः इत्यनेन साक्षात् परे स्यात् एषु लकारेषु कर्तर्ते कर्तरिष्यप् इत्यनेन शबादेन विकरणप्रत्ययाः आनीयन्ते एषु तिङन्तपदेषु गणीयभेदः वर्तते अनेन दशधातुगणाः निष्पद्यन्ते द्वादिः इत्यस्मात् आरभ्य चुरादिपर्यन्तम् अत्र सार्वधातुकलकाराः इत्युच्यन्ते लट् लोट् लङ् विडि इति एषु लकारेषु कर्तते धातुतः सार्वधातुकप्रत्ययः नास्ति एव अथवा यत्र अस्ति परन्तु साक्षात् न अतः न दृश्यते तेषु तिङन्तपदेषु षप् भवति स्थाने इडागमो विचारः अत्र आर्द्रधातुकलकारः इत्युच्यते लिट् लुट् लृङ् लुट् लुङ् आशिर्लुङ् इति अनेन चत्वारः सार्वधातुकलकाराः भवन्ति षट् च भवन्ति सम्यक् तर्हि समापनात् पूर्वं पुनरेकवारं वदामि तत्र स्यतासीनृटोः इति सूत्रस्य कार्यं यदा लृट् इत्येव स्थितिः अस्ति आप लृट् तस्मिन् स्थाने एव भवति स्य इति अनन्तरं तत्र तिङ् इति यदा प्रत्ययः आगच्छति तिङ् प्रत्ययेषु एकः तत्समये स्य इति मध्ये कृत्वा तत्र कर्तरि शाप् इत्यस्य कार्यं न भवति तर्हि भिन्नभिन्नसमये एतत् सूत्रद्वयम् अपि च एतत् कार्यद्वयं भिन् भिन्नभिन्नसमये भवति इति अस्तु अत्र प्रश्नाः वा इत्युक्ते अस्माकं ये ये प्रश्नाः आसन् एव तेषां पुनः चिन्तनं भवति परन्तु एतद् विहाय अस्तु नो चेत् विरमामः अत्र धन्यवादः पुनः बुधवासरे मेलिष्यन्यवादः शुभरात्रिः अस्तु धन्यवादः धन्यवादः शुभरात्रिं च